गरुडपुराणम् आचारकाण्डम् अध्यायम् टु हण्ड्रेड् एण्ड् उवाच श्रीरुघ्दागेनसा ज्ञेया उद्युग्दा स्त्री गुरुद्वयं मो नारीरो मृगीमध्या म गौ कन्या प्रतिष्ठया भो गौ पङ्क्तिः सुप्रातिष्ठा तनुमध्या तय्यौ स्मृता नयाभ्याम्भालललिता गायत्री छन्द एव हि मसर्गैर्मदलेखस्यादुष्णिच्छन्दस्मृदम्बुधैः भौ गौ चित्रपदाख्यादा विद्युन्माला मम गगौ मानवकं भातलगाम्नौ गौ हंसहृदं स्मृदं समानिका रजगला जरला गः प्रमाणिका अभ्यामन्यद्वितानां स्यादनुष्ठुप् चन्दईहितम् नसायि स्याद्धलमुखी नौ मशिशुभृदा भवेद् बृहदि छन्द इत्युक्तं स्मौ जगौ सविराजितं पणवं स्यान्मनयगैर्मयूरसारिणी भवेद् रजाभ्यां च रगाभ्यां च रुक्मवदी बभौ सगौ मत्ता मभसगैर्युक्ता न रजा गो मनोरमा पङ्क्तिछन्दस्समाख्यादं जसता गागुपस्थितं तौ जो गाविन्द्रवज्रास्याजदजगा गुपपूर्विका उपजादयोन्याद्यान्तास् सुमुखीन जजालगौ भभभा गौ दोधं स्याच्चालिनी मतता गगौ अब्धिलोकैश्च विच्छेदो वाधोर्मो ममता गगौ श्रीर्भदौ ननगाः प्रोक्ता पञ्चभिषडूभिरेव च मगनानो मुदाहृदं भ्रमरविलासिदमुदाहृदं रद्धोद्धतार्णौ रलगास्वागदा रनभा गगौ वृत्ता स गौ गस्याह्नौ रलौ गः समद्रिका रजराल्गौ स्येनिका स्याज्जसता गौ शिखण्डितं दृष्टुच्छन्दःसमाख्यातं पिङ्गलेन महात्मना रनौ भसौ चन्द्रवर्त्म वंशस्थं स्याद् तदो जरौ तदो जरविन्द्रवंशाेदसैस्तोडकं स्मृतं न भौ भ्रौ द्रुतविलम्बितं पुडश्च स्यान्ौ मया वसु वेदैष्टविरधिर्मुदिदवदनात्वियम् न रैः रा समाख्यादा नयनायस्तथा भवेदर् साधुकुसुमविचित्रा जलोद्धदगदी रसैः जसौ जसौ च पदेषु चदुरैस्त्वग्णीमदा भुजङ्गप्रयादं वृत्तं चतुर्भिर्यै प्रकीर्तिदं प्रयंवदनभज्यैश्च मणिमालास्तयौ तयौ गुहवक्त्रैश्च सन्निद्रा ललिदास्याभौ जरौ प्रमिताक्षरा सज ससैरुज्वलादु नौ भरौ ममौ ययौ वैश्वदेवी पञ्चाष्टैश्च यदिर्भवेद। मभौ स जलधर मालाध्यन्त्यैर्यदि भवेद् नौ तदौ गहः क्षमावृतं तुरगैश्च रसैर्यदि प्रहर्षिणी मनौ ज्रौ गावन्यभिर्दशभिर्यदिः जभौ स जौ गोरुचिराचतुर्भिश्च ग्रहैर्यदिः मत्तमयूरं मदया स गौ देवग्रहैर्यदिः मञ्जुभाषिणि सजसा जुगौ सुनन्दिनी सज मामगौ ननौ ततौ चन्द्रिकागसप्तभिश्च रसायर्यति असम्बाधा मदनसा गगौ बाणग्रहैर्यदिहि ननरासो लधु गुरुस्वहैप्रोक्ता पराजिता ननौ धनौ प्रहरणकलिकेयं लगौ तथा वसन्ततिलका सिंहोन्नदा तब्जा जगौ गुरुः भजौ सनौ गगाविन्दुवदनाधसुगेशरम् नरनारलगाःपादे शर्करी प्रतिपादिता चतुर्दशलघु स्याच्च श्र शशिकला सदा रसग्रहयदि स्र वसुशैलयदिस्तमनिगुणनिकरो मालिनीनमाययौ वसुस्वरयदि स्याच्च न जौ भद्राप्रभद्रकं येलासयौ नौ यस्याचित्रलेखस्वराष्टकैः मरौ मय्यौ यश्च भवेदुक्देयमधिशर्करी स्वरात्कं वृषभगजृम्भिदं भ्रननानगौ न ज भजरा वाणिनी गः पिङ्गले नाष्ट ीरिता रसरुद्रयशिखरिणी यमौ न स भला गुरुः वसुगयधिक्पृथ्वी जसौ जसयला गुरुः दशस्वरैर्वंशपत्रपदिदं भ्रौन्नभा लगौ षड्वेदा ैश्च हरिणी न समा रसला गुरुः मन्दाक्रान्तब्धिषट्नगैर्मभनास्तदगा गुरुः नर्दटकं न ज भजा जलौ गो यदिरेवजा सतर्त्वब्धिकोकिलक मत्याष्टि स्याच्च पूर्ववद बोधर्तस्वै कुसुमितलतां तौ न्यौ ययौ धृतिः प्रसर्त्वैश्वर्यमौंसौ रौ मेघविस्फूर्जिता रघौ शार्दूलविक्रीडिदं मस् सूर्यस्वै सदास्तगौ छन्दो ह्यदि धृधि प्रोक्तमद ऊर्ध्वं कृधिर्भवेद सप्ताश्वर्तुसुवदनाभ्रौ मनौ यफला गुरुः वृत्तं रजौ रजौ पादे रजौ गोल्लकृतिर्भवेद त्रिसप्तकैस्नग्धरा स्यात् प्रकृतिर्म्न धनैस्त्रियैः दिगर्कैर्भद्रगम्भ्रौ नृ नरनागो यथाकृति न जौ ौ जलगा भवेद मत्ताक्रीडञ्चाष्टबाणदशकैर्मौ तनौ न ना ना लौ गुरुश्च विकृधिष्ठिन्ना संकृदिरुच्यदे पञ्चाश्वार्कैर्भतौ तन्वी न स भाभनया गणः क्रौञ्चपदबाणशरवसु शैलैर्भामौ स भौ नौ नौ गोधिकृधि प्रोक्ता छन्दो ह्युत्कृधिरुच्यदे वत्स्वीशाश्वैर्ममतन्नैः ननरसैर्लगयुक्तैश्च अपवाहाख्यकं यदि हि गुहैषड्भीरसैर्बाणैर्मोना षट्सगगागणाः चन्दवृत्तिप्रपादोऽसौ दण्डकोन्नौ तदोगरः रफे वृद्धान्तपादस्य व्यालजीमोदकादयः इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांसाख्ये समवृत्तलक्षणादिनिरूपणं नाम नवोत्तरद्विशततमोऽध्यायः ओ अध्यायं 210 हण्ड्रेड् एण्ड् टेन् सूद उवाच सससलगाश्च विषमे पादे यद्युपचित्रगं समेऽम्भौ भग गास्युश्च द्रुतमध्या बभौ भगौ गफ पादे विषमेऽन्यत्र नजौ ज्यौ च गणौ स्मृतौ विशमे वेगवती सागसमे भौ भो गगौ गणाः पादे समे तजौ रोगस्समे मत्सौ जगौ गरुः भवेद्भद्रविराट्केतुमदीदु विषमे स जौ स गौ समे भ्रौ न गग आख्यानकी तौ जो समे पादे जगजगुरुकद्वयं विपरीताख्यानकं स्यात् विषमे जस्तजौ गगौ तदौ जगौ समे गस्यात् पिङ्कले न ह्युदाहृदम् पादेधविषमे चैव पुष्पिताग्रा नौ रयौ समे न जौ जरौ गश्च वैतालीयं वदन्तिः वृत्तञ्चापर वक्त्राख्यमौपछन्दसिकम् परम् वाङ्मदीरजरायस्या दयुग्मे जरजारगौ इति श्रीगारूढे महापुराणे आचारकाण्डेऽर्धसमवृत्तलक्षणादिनिरूपणम् नाम दशोत्तरद्विशततमोऽध्यायः ओम् अध्यायम् 211 सूद अण्ड् इलेवेन् सूत उवाच प्रथमोष्ठाक्षरै पादोद्वितीयो द्वादशाक्षरैः तृतीयषोडशार्णैश्च विंशद्वर्णैश्चतुर्थकः सामान्यलक्षणं पद चादुरूर्ध्वाभिरद्धस्य हि आपीडसर्वलप्रोक्तदपूर्वपादान्तगद्वयः द्वितीयेष्टाक्षरैपादे कलिका प्रथमेऽर्चहे द्वितीयेष्टाक्षरैपादे कलिका प्रथमेऽर्कजे लवली स्या तृतीयेध पूर्ववच्चाष्टकक्षरे प्रोक्ताच्चामृदधारेयं चतुरष्टाक्षरे सदि सजौ सलौज प्रथमे न स जागो द्विदीयके तृदीयेभनभागस्य चतुर्थे सजसा जगौ पूर्ववत्स्यासौरभकं तृदियोगौ रनौ भगौ ललितञ्चाद्गदा वत्स्या तृदियेङ्घ्रौ ननौ ससौ उपस्थितप्रचुपितं प्रथमेखौ मत्सौ गौ द्वितीये सनजरा गस्तृदीये ननौ च सह नौ नजौ ना यश्च दुर्धे स्याचेशपादाश्च पूर्ववद तृतीर्ये क्रौ विशेषश्च वृत्तं स्यान्नौ स नौ नः सौ आर्षभं तजरापादे तृतीयेऽन्यच्च पूर्ववद पूर्ववत्प्रथमम् शेषे तज्राशुद्ध विराड् भवेद प्रचूपिद प्रचुपिदप्रकरणम् विषमाक्षरपादं वा पञ्चषष्टिकादि यावगम् छन्दोत्र नोक्तागाधेदि दश धर्मादिवद्भवेद इति श्री गारूडे महापुराणे आचारकाण्डे विषमवृत्तलक्षणादिनिरूपणम् नामका नामैका ओम् अध्यायम् ओम। टु हण्ड्रेड् अण्ड् ट्वेल्व् सूत उवाच प्रस्तार अद्यगोधो लः परतुल्योधपूर्वकः नष्टमध्ये समेम् केलः समेऽर्धे विषमे गुरुः प्रतिलोमगुणम् लाद्यम् द्विरुद्दिष्टक ये कनुद सङ्ख्या द्विरर्धे शून्यं शून्ये द्विरीरिदं तावदर्थे तद्गुणितं द्विर्व्यूनन्तु तदन्तदः परे पूर्णं परे पूर्णं मेरुप्रस्तारदो भवेद लभ सङ्ख्यावृत्तसङ्ख्या चाद्याङ्गुलमधोर्ध्वः सङ्ख्यैव द्वि गुणैको ना छन्दः सारोयमीरिदः इति श्रीकारूडे महापुराणे छन्दोलक्षणं नाम द्वादशोत्तरद्विशततमोऽध्यायः ॐ अध्यायम् टु हण्ड्रेड् उवाच हरे श्रुत्वा ब्रवीद्ब्रह्मा यथा व्यासाय शौनक ब्राह्मणादिसमाचारम् सर्वदम् ते तथा वदे श्रुति स्मृदिदुविज्ञाय श्रौदम् कर्म समाचरेद श्रौदम् कर्म न चेदुक्तम् तदा स्मार्तम् समाचरेद तत्राप्यशकृतकरणे सदाचारं चरेर्बुधः श्रुति स्मृतिः विप्राणां लोचने कर्मदर्शने श्रुत्युःखतपरमो धर्मस्मृतिशास्त्रगदोपरः शिष्टाचारेण सम्प्राप्तस् तयो धर्माः सनात्तनाः सत्यं दानं दयालो भो विद्येज्यापूजनं दमः अष्टौ तानि पवित्राणि शिष्टाचारस्य लक्षणं तेजोमयानि पूर्वेषां शरीराणीन्द्रियाणि च पादगे न पादगेन पादकेन पद्मपत्रमिवाम्भस्व निवासमुख्या वर्णानाम् धर्माचारा प्रकीर्तिताः सत्यं यज्ञस्तपोदानमेतद्धर्मस्य लक्षणम् अधत्तस्यानुपादानं दानमध्ययनं जपः विद्यावित्तं तपः कुले जन्म त्वरोगिता संसारोच्चित्तिहेतुश्च धर्मादेव प्रवर्तते धर्मा, धर्मा सुखम् च ज्ञानम् च ज्ञानान् मोक्षोऽधिगम्यते इद्याध्ययनदानानि यथा शास्त्रम् सनातनः ब्रह्मक्षत्रियवैश्यानाम् सामान्यो धर्म उच्यते या जनाध्ययने शुद्धे विशुद्धा च प्रतिग्रहः वृत्तित्रयमिदम् प्राहुर्मुनयश्रेष्ठ वर्णिनः शस्त्रेणा जीवनम् राज्ञो भूतानाम् चाभिरक्षणम् पाशु पाल्यम् कृषिः पुण्यम् वैश्यस्या जीवनम् स्मृतम् शूद्रस्य द्विज शुश्रूषा द्विजानामनुपूर्वशः गुरौ वा स्वग्निशुश्रूषा स्वाध्यायो ब्रह्मचारिणः तृस्नादा स्नापिता भैक्ष्यं गुरौ प्राणान्तिगी समेकलो समे खलु जडिदण्डीमुण्डी वा गुरुसंश्रयः अग्निहोत्रोपचरणं जीवनं च स्वकर्मभिः धर्मदारेषु कल्पेदपर्ववर्जं रदिक्रियाः देवपित्रतिदिभ्यश्च पूजादिष्वनुकल्पनं श्रुति स्मृत्यर्थसंस्थानं धर्मोऽयं गृहमेधिनः जडित्वमग्निहोत्रत्वम् भुज जडित्वमग्निहोत्रत्वं भूषय्याजिनधारणं वनेवासपयोमूलनीवारफलवृत्तिदा प्रदि सिद्धान्निवृत्तिश्च त्रिस्नानं व्रतधारिता देवतातिथिपूजा च धर्मोऽयं वानवासिनः सर्वारम्भपरित्यागो भिक्षान्नम् वृक्षमूलता निष्परिग्रहताद्रोहः समदा सर्वजन्तुषु प्रिया प्रियपरिष्वङ्गे सुखदुःखाधिकारिता सबाह्याभ्यन्तरे शौचम् वाग्यमोध्यानचारिता सर्वैन्द्रियसमाहारो धारणाध्याननित्यता भावसंशुद्धिरेत्येष परिव्रा धर्म उच्यते अहिंसासूनृतावाणी सत्यशौचे क्षमादया वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते यथोक्तकारिणः सर्वे प्रयान्ति परमां गतिम् आबोधा स्वपनं यावद्गृहिधर्मं च वच्मि ते मुहूर्ते बुद्ध्येद धर्मार्थौ चानुचिन्तयेद कायक्लेशांश्च तन्मूलान्वेद तत्त्वार्थमेव च सर्वर्यन्ते समुद्धाय स्नात्वा सन्ध्यामुपासीद सर्वकालमदधृदः प्रातः सन्ध्यामुपासीदन्तधावनः पूर्विकम् उभे मूत्रपुरीषे च दिवा कुर्यादुदङ्मुखः रात्रौ च दक्षिणे कुर्यादुभे सन्ध्ये यथा दिवा छायायामन्धकारे वा रात्रौ वाहिनि वा द्विजह यधादु समुखकुर्यात् प्राणबाधा भयेषु च गोमयाङ्गारवल्कीकफाला कृष्टे शुभे मार्गोप न मूत्रं न पुरीशकम् अन्तर्जलादेव गृहाद्वल्मीकान् मूषिकस्थलाद् परेषां शौचशिष्टाच्च श्मशनाच्च मृदं त्यजेद् एकां लिङ्गे मृदं मूत्र शौचं एकाम् लिङ्गे गुदे तिस्त्रस्तथा वामकरे दश पञ्चपादे दशैकस्मिन् करयोः सप्त मृत्तिकाः अर्धप्रसृतिमात्रा द्वितीया च तृतीया च तदर्ध परिकीर्तिता उपविष्टस्तु विण्मूत्रं कर्तुं यस्तु न विन्दते स कुर्यादर्धशौचं तु स्वस्य शौचस्य सर्वदा दिवा शौचस्य रात्र्यर्धं यद्वापादो विधीयते स्वस्थस्य तु यद्धोद्दिष्टमार्थकुर्याद्यद्धा बलम् वसा शुक्रमशृमज्जा लाला विण्मोत्रकर्णविड श्लेष्माश्रदूषिका स्वेदो द्वादशैदेन्दृणां मलः मन्येद यावदा शुद्धिं तावच्चौजं समाचरेत प्रमाणं शौच सङ्ख्याया शौचम् तु द्विविधम् प्रोक्तम् बाह्यमाभ्यन्तरं तथा मृजलाभ्यां स्मृतम् बाह्यम् भावशुद्धिरथान्तरम् त्रिराचामेतपः पूर्वम् द्वि प्रमृज्या तदोमुखम् समृज्याङ्गुष्ठमूलेन त्रिभिराश्यमुपस्पृशेद अङ्गुष्ठेन प्रदेशिन्याक्रणं पश्चादनन्तरम् अङ्गुष्ठानामि काभ्यां च चक्षुश्रोत्रे पुनः पुनः कनिष्ठाङ्गुष्टयोर्नाभिं हृदयं तुतलेन वै सर्वाभिस्तुशिरः पश्चात् बाहूचाग्रेण संस्पृशेद ऋचो त्रिः पठन् प्रीणयेत्क्रमाद अथर्वाङ्गिरसौ पूर्वं द्विप्रमाष्ट्यथ तन्सुखम् इतिहासपुराणानि वेदाङ्गानि वेदाङ्गानि यथा क्रमं कम् वायुं नेत्रे सूर्यं श्रुती दिशः प्राणग्रन्थिमधो नाभिम् ब्रह्माणं हृदये स्पृशेद रुद्रं मूर्धना समालभ्य प्रीणात्यथ शिखामृषीन् बाहू यमेन्द्र वरुणकुबेर वसुधानलान् अभ्युक्ष्यचरणविष्णुमिन्द्रं विष्णुकरद्वयम् अग्निर्वायुश्च सूर्यन्दु गिरयोऽङ्गुलिपर्वसु गद्गद्यासजितस्तासु येखाकरमध्यगाख उषकाले दुसम्प्राप्ते शौचम् कृत्वा यथार्धवद तदस्नार्कुर्वीदन्तधावनपूर्वकम् मुखे पल्युषिते नित्यम् भवत्यप्रयदो नरः तस्मात् सर्वप्रयत्नेन कुर्याद्वै दन्तधावनं कदम्ब बिल्वकदिरकरवीरवडार्जुनाः यूधीजबृहदीजादि करञ्जार्कादिमुक्तकाः क्षीरि कण्टकी वृक्षाद्या प्रशस्ता दन्तधावने कडुतिक्तकषायाश्च धनारोग्यसुखप्रदाः प्रक्षाल्य भुक्त्वा च शौचौ प्रक्षाल्य भुक्त्वा च शुचौ देशे त्यक्त्वा तदा चामे मा अमायाम् च तदा षष्ट्याम् नवम्याम् प्रतिपद्यपि वर्जयेदन्तकाष्ठन्तु तथैवार्कस्य वासरे अभावेदन्तकाष्ठस्य निषिद्धायाम् तथा तिथौ अशाम् द्वादशगन्धूषैकुर्वेदमुखशोधनम् प्रादस्नानम् प्रशंसन्ति दृष्टादृष्टकरम् हितम् सर्वमर्हति शुद्धात्मा प्रादस्नायी जपादिकम् अत्यन्तमलिनकायो नवचिद्र स्त्रवत्यषदि वा रात्रौ प्रातस्नानं विशोधनं मनप्रसादजननं रूपसौभाग्यवर्धनं शोकदुःखप्रशमनं गङ्गास्नानवदाचरेद अद्य हस्ते दशम्यां ज्येष्टके दश पापहरायाम् च अदत्वादानकल्मषम् विरुद्धचरणम् हिंसा परदारोपसेवनम् पारुष्यानृदपैशून्यमसम्बद्धाभिभाषणम् परद्रव्याभिधानम् च मनसानिष्टचिन्तनम् ये गङ्गास्नानं करोम्यहम् प्रातःक्षेपदस्नानं वानप्रस्थगृहस्थयोः यते स्त्रिश्रवणं स्नानं सकृत्तब्रह्मचारिणः आचम्यतीर्थमावाह्य स्नाह्य स्मृत्वा व्ययं हरिम् तिस्रकोट्यस्तु विज्ञेया मन्देहा नाम राक्षसाः उदयन्तम् दुरात्मान सूर्यमिच्छन्ति खादितुम् न हन्ति सूर्यम् सन्ध्यायाम् नोपास्तिम् गुरुदेतु यः दहन्दि मन्द्रभूदेन नलरूपिणा अहोरात्रस्य यः सन्धिः द्विनाडिका भवेत् सन्ध्या यावद्भवदिदर्शनं गन्ध्या कर्मावसाने दुः स्वयं होमो विधीयते स्वयं होमफलं यत्तु तदन्येन न जायते ऋत्विक्पुत्रो गुरुर्भ्रादा भागिने योधविपदिः येभिरेव हृदं यत्तु तद्दुधम् स्वयमेव हि ब्रह्म वै गार्हपत्याग्निर्दक्षिणाग्निस्त्रिलोचनः विष्णुराहवनीयाग्निः कुमारः सत्य उच्यदे कृत्वा होमं यथाकालं सौरान् मन्त्रान् जपेत्तदः समाहितात्मा सावित्रीं प्रणवं च प्रणवे नित्ययुक्तस्य व्याहृदिषु च सप्तसु त्रिपदायां च सावित्र्यां न भयम् विद्यते क्वचिद् गायत्रीं यो जपे नित्यम् पद्मपत्रमिवाम्भसा श्वेदवर्णासमुद्दिष्टा कौशेयवत्सना तथा अक्षसूत्रधरा देवी पद्मासनगदाशुभा आवाह्य यजुपानेन तेजोसीदिविधानदः यदद्यजुःपुरा दैवाय दृष्टिदर्शनकाङ्क्षिभिः आदित्यमण्डलान्तस्तां ब्रह्मलोगस्थिदामपि तत्र बाह्यजपित्वादो नमस्काराद्विसर्जयेद पूर्वाह्न एव कुर्वीद देवतानां च पूजनं न विष्णो परमो देवस्तस्मात् तम् पूजयेत् सदा ब्रह्मविष्णुशिवान् देवान्नपृथग् भावये सुधीः लोकेऽस्मिन् मङ्गलन्यष्टौ ब्राह्मणो गौर्हुदाशनः हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः वेदानि सतदं पश्येदर्चये च वेदस्याध्ययनं पूर्वं विचारोऽभ्यसनं जह तद्दानं चैव शिष्यभ्यो वेदाभ्यासो हि पञ्चथा वेदार्थं यत्नशास्त्राणि धर्मशास्त्राणि चैव हि मूल्येन लेखयित्वा यो दद्याद्यादिशवैदिकम् इतिहासपुराणानि लिखित्वा यः ब्रह्मदानतमम् पुण्यम् प्राप्नोति द्विगुणीहृदम् मृतीये च तथा भागे पोष्य वर्गार्थसाधनम् मातापिता गुरुर्भ्रादा प्रजादीनाः समाश्रिताः अभ्यागतो तिथिश्चाग्निपोष्य वर्ग उदाहृदः भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनं भरणं पोष्यवर्गस्य तस्माद्यत्नेन कारयेद स जीवति वरश्चैगो बहुभिर्योपजीव्यति जीवन्तो मृतकस्त्वन्ये पुरुष स्वोदरम्भराः स्वकीयोदरपूर्तिश्च कुक्कुरस्यापि विद्यते अर्धेभ्योऽपि विवृद्धेभ्यः सम्भूतेभ्यस्ततस्ततः क्रिया सर्वा प्रवर्धन्ते पर्वतेभ्य इवापगाः सर्वरत्नाकरा भूमेर्धान्यानि पशवस्त्रियः अर्धस्य कार्ययोगित्वादर्ध इत्यभिधीयते अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः यावृत्तिस्ताम् समास्थाय विप्रो जीवे धनपदि धनं तु त्रिविधम् ज्ञेयम् शुक्लम् शबलमेव च कृष्णं च तस्य विज्ञेयो विभागसप्तधापृथक क्रमायत्तम् प्रीतिदत्तम् च सहभार्यया अविशेषेण सर्वेषाम् वर्णानाम् त्रिविधम् धनम् वैशेषिकम् धनम् दृष्टम् ब्राह्मणस्य त्रिलक्षणम् याजनाध्यापने नित्यम् विशुद्धश्च प्रतिग्रहः त्रिविधम् क्षत्रियस्यापि प्राहुर् वैशेषिकम् धनम् शुद्धार्धम् लब्धवरजम् दण्डार्थम् जयजम् तथा वैशेषिकम् धनम् दृष्टम् वैश्यस्यापि विलक्षणं कृषि गो रक्ष वाणिज्यम् शूद्रस्यैभ्यस्त्वनुग्रहाद कुसिदकृषिवाणिज्यम् प्रकुर्वेद प्रगुर्वेदस्वयं परं आप्तकाले स्वयम् कुर्वन् नयिनः सा युज्यते द्विजः बहवो वर्दनोपाया ऋषिभिः परिकीर्तिताः सर्वेषामपि चैवैषाम् कुसिदमधिकम् विदुः अनावृष्ट्या राजभयान् मूषिकाद्यैरुभद्रवैः कृष्यादिके भवेद्बाधा सा कुसीदेन विद्यते शुक्लपक्षे तथा कृष्णे रजन्यां दिवसेऽपि वा उष्णे वर्षदिशि देवा वर्धनं न निवर्तते दे। देशं गदानां यावृद्धिर्नानापण्योपजीविनां कुसीदं कुर्वतः सम्यक् संस्थितस्यैव जायते लब्धलाभपितृन्देवान् ब्राह्मणांश्चैव पूजयेद ते तृप्तास्तस्य तद्दोषं शमयन्ति न संशयः वणिकुसिदं दद्याद्यो वस्त्रं गाङ्काञ्चनादिकं कृषीवलोन्नपानादियानशय्यासनानि च राजभ्यो विंशतिं दत्त्वा पशुस्वर्णाधिगं शतं पादेनास्य जयावक्यं गुर्यासं चयमात्मवान् अर्धेन चात्मभरणं नित्य नैमित्तिकान्वितं पादं चेत्यर्धयामस्य मूलभूतं विधर्धयेत् विद्याशिल्पम् भूदिस्सेवा गोरक्षा विभणिः कृषिः वृत्तिर्भैक्ष्यम् कुसीद्धं च दशजीवनहेतवः प्रतिग्रहार्जिता विप्रे क्षत्रिये शस्त्रनिर्जिता वैश्ये न्यायार्जिता स्वार्धा शूद्रे शुश्रूषयार्जिताः नदी बहूदका शाकमृत्पर्णानि समित्कुशाः अग्नेयो ब्रह्मकोषश्च विप्राणां धनमुत्तमम् अयाचितोपपन्ने नास्ति दोषप्रतिग्रहे अमृतं तद्विदुर्देवास्तस्मात् तन्नैव वर्जयेत् गुरु द्रव्यांश्चौ जिहीर्षुरर्चिष्यन् देवदातिधीन् दी सर्वदप्रतिगृह्णीयान्न तुष्येतु स्वयं तदः साधु दप्रतिगृह्णीया दा दध वा साधुतो द्विजः गुणवानल्पदोषश्च निर्गुणो हि निमज्जति येवं त्वक्षवृत्या वा कृत्वा भरणमात्मनः कुर्याद्विशुद्धिं परधप्रायचित्तं द्विजोत्तमः चतुर्धे च स्नानार्थं मृदमाहरेद तिलपुष्पकुशादीनि स्नानं चाकृत्रिमे जले नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणं मार्जना च मावगाकाश्चाष्टस्नानं प्रकीर्तितम् अस्नातस्तु पुमान्नार्हे जपाग्निहवनादिषु प्रादस्नानम् तदर्थम् तु नित्यस्नानम् प्रकीर्तितम् चाण्डाल शवविष्ठाद्यान् स्पृष्ट्वा स्नानम् व्रजस्वलाम् स्नानार्हस्तु यदा स्नादि स्नानम् नैमित्तिकम् हि तद पुष्यस्नानादिकम् स्नानम् दैवज्ञविधिचोदितम् तद्धिकाम्यम् समुद्दिष्टं न कामस्तत् प्रयोजयेद जतु काम स्नानं समाचरेद्यस्तु क्रियाङ्गं तच्च कीर्तिदम् मलापकर्षणार्धाय सरस्सु देवकादेषु तीर्थेषु च नदीषु च स्नानमेव क्रिया यस्मात् क्रिया स्नातमदः परम् अभिर्गात्राणि शुद्ध्यन्ति तीर्थस्नानात्फलम् लभेद मार्जनान्मज्जनायर्मन्त्रै पापमाशु प्रणश्यति नित्यम् नैमित्तिकम् चापि क्रियाङ्गम् मलकर्षणम् तीर्थाभावे पुनत्याशु पापमामरणान्तिकम् गयाम् च कुरुक्षेत्रे यत्तोयं समुपस्थितम् तस्मात्तु गङ्गमपरम् जानीयात् तोयमुत्तमम् पुत्रजन्मनि योगेशु। तथा सङ्क्रमणे रवेः राघोश्च दर्शने स्नानम् प्रशस्तम् निशिनान्यधा उषसि उषसि यत्स्नानं सन्ध्यायामुदिदेरवौ प्राजापत्येन तत्तुल्यं महापादकनाश्र